शृण्वच्छ्राद्धः पुण्यशीलः श्रावयिश्चेदमद्भुतं नरः फलमवाप्नोति राजसूयास्वमेधयोः यथा समुद्रो भगवान् यथा मेरुर्महागिरिः उभौ ख्यातौ रत्ननिधि तथा भारतमुच्यते इदं हि वेदैः समितं पवित्रमपि श्रव्यम् श्रुतिसुखम् चैव पावनम् शीलवर्धनम् य इदम् भारतम् राजन् वाचकाय प्रयच्छति तेन सर्वा महीदत्ता भवेत्सागरमेखला पारीक्षितकथाम् दिव्यां पुण्याय विजयाय च कथ्यमानाम् मया कृत्स्नाम् शृणुहर्षकरीमिमां त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः महाभारतमाख्यानं कृतवानिदमद्भुतं धर्मे चार्थे च चा कामे च मोक्षे भरतर्षभ यदिहास्ति तदन्यत्र यन्नेहास्ति न श्रीमहाभार आदिपर्वण हमशावत महाभारत प्रशंसायां दिष्टितमोध्याय